मुद्गलपुराणं खण्डं टु एकदन्तचरितम् अध्यायं सेवेण्टि फोर् चरितमाहात्म्यं श्रीगणेशाय नमः दक्ष उवाच एकदन्तस्य यत्क्षेत्रं सङ्क्षेपेण मया श्रुतं यात्रादिविस्तरेणैव कथयस्वमहामुने मुद्गल उवाच अग्निकोणे दिशां प्रान्ते स्वखण्डेषु मानद एकदन्तस्य च क्षेत्रं ज्ञातव्यं जलधेस्तटे दशयोजनविस्तारं समन्तात्र मध्यकः एकदन्तो गणेशानः पूज्यदे सिद्धसाधकैः तद्वामाङ्गे स्वयं सिद्धिर्दक्षिणाङ्गे प्रजापदे बुद्धिश्च मूषकस्तस्य समीपे संस्थितः प्रभोः सिद्धयोष्टौ पुरस्तस्य वामे देवादयः सर्वे भक्र्या दक्षिणाङ्गेजवेदादिशास्त्राणि प्रस्तुवन्ति तम् पृष्ठे काश्यादिक्षेत्राणि तीर्थानि च भजन्तितम् श्रेष्ठस्वरूपकाः संस्थाः सर्वे त्रिभुवनेषु ये ते क्षेत्रवासिनो भूत्वा भजन्ते समुद्रे स्नानकर्तारस्वस्वनाम्नाङ्गितेषु वै तीर्थेषु सूक्ष्मरूपेषु सूक्ष्मरूपधरा सदा तत्रैकदन्ततीर्थं वै सर्वलोकेषु विश्रुतं दर्शनात् सर्वपापघ्नं भुक्तिमुक्तिप्रदं भवेद भाद्र भाद्रशुक्लचतुर्थ्यां महोत्सवस्तत्र वर्तते यात्रार्थं सर्वलोकश्च त्रिलोकस्ताव्रजन्दितं ब्रह्मभूयकरं क्षेत्रं गणेशं शास्त्रसम्मदं। मरणे तत्र सम्प्राप्ते स्वानन्दे वसतिर्भवेद सङ्क्षेपेण मया प्रोक्तं यत् क्षेत्रस्य यशो मलम् mm. आयुतायुधवर्षैश्च विस्तारे कक्षमो भवेद् यदच्चरित्रमाद्यं वै कथितं ते महामदे एकदन्तस्य माहात्म्यं सङ्क्षेपेण तथा मया विस्तरेण न शेषोऽपि ब्रह्मविष्णुर्महेश्वरः शुको नैकसमर्थश्च भवेत् कथयितुं कदा य चरित्रं सर्वसिद्धिदं शृणु या वयेद्वापि पठेत् स लभतेखिलं पुत्रपौत्रादिकं सर्वं धनधान्यसमन्विधम् कलत्रम् सुखदं जन् दुर्लभते नात्र संशयः अनेन भावसंयुक्त एकदन्तम् प्रजापते नित्यं स्तु यात्स ये वैकदन्तरूपो धरातले तस्य दर्शनमात्रेण कृतकृत्या भवन्ति देवादयो न सन्देहो ब्रह्माकारस्वरूपिणः श्रवणेनैव खण्डस्य कृतकृत्यो नरो भवेद् नारी वा पशुरूपो वा निश्चितं मुनिभिः पुरा सर्वतीर्थेषु यः स्नायात्सर्वदानं करोति यः यस् तपे नित्यम् यात्रा सर्वा करोदि यः इष्टा पूर्तादिकम् सर्वम् कुरुते भक्तिसंयुतः तेभ्यः संश्रवणात्पुण्यम् लभेदस्य शताधिकम् धर्मार्थकाममोक्षान्वै लभते श्रवणेन च खण्डस्यास्य न सन्देहो ब्रह्मभूदो भवेन्नरः यद्यदिच्छति तत्तद्वै सफलं प्रभवेत् सदा श्रवणेनैकदन्तस्य चरित्रस्य नरो महान् सम्पूर्णो महिमा दक्ष न वक्तुं शक्यते मया ब्रह्मादिभिश्च सारमञ्जसा सुत उवाच यवमुक्त्वा महायोगी मुद्गलो विररामः महा दक्षस्थं हर्षितोत्यन्तं प्रणनाम कृताञ्जलिः महोदरस्य माहात्म्यश्रवणे लालसी स्वयं दक्षस्थं पुनरप्याह तदग्रे वर्णयाम्यहम् येतच्छौनकमुख्यं ते चरित्रं कथितं मया यदा दक्षेण सर्वं वै मुद्गलात् संश्रुतं तथा सर्वसिद्धिकरं प्रोक्तमेकदन्तचरित्रकं श्रुतं भावेन भो विप्र किम्भूय तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते चरितमाहात्म्यं नाम चतुस्सप्ततितमोऽध्यायः ॐ यदि द्वितीयखण्डः समाप्तः इति श्रीमुद्गलपुराणे द्वितीयखण्डः समाप्तः ओ